आदित्य हृदयस्तोत्रम् जयतु जयतु सूर्यम् सप्त लोकैकदीपम् किरण शमित पापम् क्लेश दुःखस्य नाशम् अरुण किरण गम्यम् आदिमादित्य मूर्तिम् सकल नमामि ततो युद्ध परिश्रान्तम् रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् दैवतैश्च समागम्य द्रष्टुमभ्यागतोरणम् उपागम्या ब्रवीद्रामम् अगस्त्यो भगवान् ऋषिः राम राम महाबाहो शृणु सनातनं। सनातनम् येन सर्वानरीन् वत्स समरे विजयिष्यसि आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम् सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनं चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमं रश्मिमन्तं समुद्यन्तम् देवासुर नमस्कृतम् पूजयस्व विव स्वन्तं भास्करम् भुवनेश्वरम् सर्वदेवात्मको ह्येषः तेजस्वी रश्मिभावनः एष महेंद्रो धनदः कालो यमः सोमो ह्यपापतिः पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः वायुर्वन्निः ऋतुकर्ता प्रभाकरः आदित्यः सूर्यः खगः सुवर्णसदृशो भानुः िरण्यरेता दिवाकरः हरिदश्वसहस्रार्चिः सप्तसप्तिर्मरीचिमान् तिमिरोन्मथनः शम्भुः त्वष्टामार्ताण्ड अंशुमान् हिरण्यगर्भः शिशिरः तपनो भास्करो व्योमनाथस्तमो भेदी ऋग्यजुः सामपारगः घनवृष्टिरपां मित्रो विन्ध्यवीथि प्लवङ्गमः आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः कविर्विश्वो महातेजा रक्तः सर्व भवोद्भवः नक्षत्रग्रहताराणाम् अधिपो विश्वभावनः तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते, ते नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ज्योतिर्गणानां पतये दिनाधिपतये नमः जयाय जय हर्यश्वाय नमो नमः नमो नमः सहस्रांशो आदित्याय नमो नमः नम उग्राय वीराय सारङ्गाय नमो नमः नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे भास्वते सर्वभक्षाय रौद्राय वपुषे नमः तमुघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने कृतघ्नघ्नाय देवाय ज्योतिषाम्पतये नमः तप्तचामीकराभाय वन्नये विश्वकर्मणे नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे नाशयत्येष वै भूतं तदेव सृजति प्रभुः पायत्येष तपत्येष वर्षत्येष गभस्तिभिः येष सूक्तेषु जागर्ति भूतेषु परिनिष्ठितः एष एवाग्निहोत्रं ये च फलं चैवनिहोत्रिणाम् वेदाश्च क्रतवश्चैव क्रतूनां यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः येन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु कीर्तयन् पुरुषः कश्चिन् नावसीदति राघव पूजयस्वै देवदेवं जगत्पतिं ये तत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि एवमुक्त्वा तदागस्त्यो जगाम च यथागतं महातेजा नष्टशोको भवत्तदा धारयामास घवः प्रयतात्मवान् आदित्यम् प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् रावणम् प्रेक्ष्य कृष्टात्मा युद्धाय समुपागमत् सर्वयत्नेन अथरविरवदन् निरीक्ष्य रामम् मुदितमनाः परमं प्रहृष्यमानः निशिचरपतिसंशयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति सूर्यं सुन्दरलोकनाथममृतं वेदान्तसारं शिवम् ज्ञानब्रह्ममयं सुरेशमलम् लोकैकचित्तस्वयम् इन्द्रादित्यनराधिपं सुरगुरुं त्रैलोक्यचूडामणिं ब्रह्मा विष्णुशिवस्वरूपहृदयं वन्दे सदा भास्करम् भानो भास्कर मार्तण्ड दिवाकर आयुरारोग्यमैश्वर्यम् श्रियं पुत्रांश्च देहि मे यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् तत्सर्वं क्षम्यतां देव नारायण विसर्गबिन्दुमात्राणि पदपादाक्षराणि च न्यूनानि चातिरिक्तानि क्षमस्वपुरुषोत्तम